नारदपुराणम् उत्तरार्धम् अध्यायं 77 सेवेन् मोहिन्युवाच श्रुतं मया द्विजश्रेष्ठ सेतुमाहात्म्यमुत्तमम् अधुना श्रोतुमिच्छामि नर्मदातीर्थसङ्ग्रहं वसुरुवाच शृणु मोहिनि वक्ष्यामि चतुश्शतं मुख्यतमं प्रोक्तं तीर्थकदम्बकम् एकादशोत्तरे तीरे दक्षिणे च त्रिविंशतिः पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसङ्गमः ओङ्कारतीर्थं परितो नगादमरकण्टकात् क्रोशद्वये सर्वदिक्षु सार्धकोटित्रयी स्थिता कोटिरेकादुतीर्थानां कापिला सङ्गमे स्थिता अशोकवनिकायां च तीर्थलक्षं प्रतिष्ठितं शतमङ्गारकर्ताया कुब्जायां या अयुतं तथा सहस्रं वायुः सङ्गेदु सरस्वत्या शतं स्थितम् शदद्वयं शुक्लतीर्थे सहस्रं विष्णुतीर्थके माहिष्मत्यां च सहस्रं शूलभेदे युदं विदुः देवग्रामे सहस्रं चोलूके सप्तशती स्थिता तीर्थान्यष्टोत्तरशतं मणिनद्याश्च सङ्गमे वैद्यनाथे च तावन्ति सार्धलक्षं च तीर्थानां स्थितं रेवाग्धिसङ्गमे अष्टाशीतिसहस्राणि व्यासे द्वीपशतानि च सङ्गमे दो करं जाया स्थितमष्टोत्तरायुधं येरण्डिसङ्गमे तद्वत्तीर्थान्यष्टाधिकं शतं धूत पापेष्टषष्टिश्च सार्धकोटिश्च कोकिले सहस्रं रोमकेशे च सहस्रकं लक्षाष्टके सहस्रे शुक्लतीर्थे नरेश्वरी सङ्गमेषु द्विसर्वेषु चदमष्टाधिकं विदुः कां वेर्या सङ्गमे नन्दितीर्थ पञ्चशती स्थिता भृगोहे भृगोः क्षेत्रे च तीर्थानां कोटिरेखाव्यवस्थिता भारभूत्यां च तीर्थानां शतमष्टोत्तरं स्थितम् अक्रूर्ये सार्धशतं विमलेषे दशायुधं सा सार्धकोटिरित्येषा तीर्थसंज्ञा च नार्मदे दशादित्यस्य नव च कपिलस्याष्ट वै विधोः नन्दिनकोडिसंज्ञानि तथैवाष्टशुभनने नादाग्नि सिद्धावरुतानि सप्तसङ्ख्यानि मोहिनि केदारेन्द्रिय वारीश नन्दिदैवानि पञ्च वै यमेश वैद्यनाथाश्च वामनाङ्गारकेश्वराः सारस्वता मुनीषाश्च दारुकेशाश्च चत्वारयेव चत्वार एव गदितास्त्रयो वै विमलेश्वराः सहस्रयज्ञभीष्मेशस्वर्णतीर्थानि चापिः दौतपापकरं जेष ऋणमुक्ति गुहाह्वयं दशाश्वमेधनन्दाख्यं मन्मधेशाख्यभार्गवं परा शरायोनिसंज्ञं व्यासाख्यपितृनन्दिकं गोपेशमारुतेशाख्यं जङ्गलेशाख्यचुक्लकम् क्षरेशं पिप्पलेशं माण्डव्यदीपकेश्वरम् उत्तरेशमशोकेशं योधनेशं च रौहिण्यम् लुकेशं च द्विसङ्ख्याकं प्रत्येकम् गदितं शुभे सैकोनविंशतिशतं तीर्थान्येकैकशुभे सभकेषु च तीर्थानि द्विशतं च चतुर्दशं शैवान्येतानि तीर्थानि वैष्णवानि द्विशतिः ब्राह्मणि सर्वतीर्थानि शाक्तान्यष्टौ च विंशतिः तेषु सप्तचमादृणां त्रीणि बाह्याशुभानने वैष्णव्या द्वे तदा भद्रे रौद्री शेवेषु संस्थिता तथैकं क्षेत्रपालस्य तीर्थमुक्तम् शुभानने अवान्तराणि गुह्यानि प्रकटानि जमोहिनि सार्धत्रिकोटितीर्थानि गदितानीह वायुना दिवि भुव्यं तानि सन्ति यस्त्वे तेषु महाभागे यत्र कुत्रापि मानवः स्नानं करोति शुद्धात्मा सदभेदुत्तमां गतिं स्नानं दानं जगो हों वो वेदाध्ययनमर्चनं सर्वमक्षयतां यादि नर्मदायास्ते कृतं प्रियात् सारस्वतं तोयम् सप्ताहाद्यामुनं सदी गाङ्गं सकृत्प्लवात्पुण्यं दर्शनादेव नार्मदम् इत्यशकथितो देवी नर्मदातीर्थसङ्ग्रहः स्मरदामपि मर्त्या नमः पादकशान्धिदः य इमं शृणुयान्मत्यो नर्मदातीर्थसङ्ग्रहं श्रावयद्वा पठेद्भद्रे सोऽपि पापैः प्रमुच्यते यद्गृहे लिखितं चैदन्माहात्म्यं नर्मदा भवं विद्यतेभ्यर्चितं तत्र न मारीनाग्निजं भयं न राजचौरशत्रुभ्यो भयं रोगभयं न च तदूवृहं पूर्यते लक्ष्म्याधनैर्धान्यैर्निरन्तरम् पुत्रपौरादिना च विवाहायुम्री उत्तरभागे बृहदुपाख्याभागे संवादे संवाद नर्मदातीर्थमत्म्यम नाम इति सप्ततितमोध्याय नर्मदातीर्थमत्म्यं